गणानाम् त्वा गणपतिगम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मण स्वतः न शृण्वन्ोदिभिः सीदसादनम् अत प्रथमाष्टके प्रथमः प्रश्नप्रारम्भः श्रीगुरुभ्यो नमः हरिः ओ ब्रह्म सन्धत्तम् तन्मे जिन्वतम् क्षत्रगुम् सन्धत्तम् तन्मे जिन्वतम् इशगुम् सन्धत्तन्ताम् मे जिन्वतम् ऊर्जगुम् सन्धत्तन्ताम् मे जिन्वतम् प्रदेगम् सन्धत्तन्ताम् मे जिन्वतम् पुष्टिगम् सन्धत्तन्ताम् मे जिन्वतम् प्रजागुम् सन्धत्तन्ताम् मे जिन्वतम् पशून् सन्धत्तन्तान् मे जिन्वतम् स्तुतोसि जनधाः देवास्त्वा शुक्रवाः प्रणयन्तो सुवीराः प्रजाः प्रजनयन् परेहे शुक्रः शुक्रशोचिषा शुक्र, स्तुतोऽसि जनधाः देवास्त्वा मन्थिवाः प्रणयन्तो सुप्रजाः प्रजाः प्रजनयन् परेः मन्थ्ये मन्थिशोचिषा सञ्जग्मानौ दिवापृथिव्यायुः सन्धत्तन्तम् मे जिन्वतम् प्राणगम् सन्धत्तन्तम् मे जिन्वतम् अपारगुम् सन्धत्तम् तम् मे जिन्वतम् यानगुम् सन्धत्तम् तम् मे जिन्वतम् तन्मे जिन्वतम् श्रोत्रकुम् सन्धत्तम् तन्मे जिन्वतम् मनः तन्मे जिन्वतम् वाचकुम् सन्धत्तन् ताम् मे जिन्वतम् आयुष्ठ आयुर्मे धत्तम् आयुर्यज्ञायधत्तम् आयुर्वज्ञपतये धत्तम् प्राणस्थः प्राणम् मे धत्तम् प्राणञ्यज्ञाय धत्तम् प्राणञ्यज्ञपतये धत्तम् चक्षुस्थश्चक्षुर्मे धत्तम् चक्षुर्यज्ञाय धत्तम् चक्षुर्यज्ञपतये धत्तम् श्रोत्रज्ञस्थश्रोत्रम् मे धत्तम् श्रोत्रम् यज्ञाय धत्तम् ्रात्रयज्ञपतगे धत्तम् तौ देवौ शुक्रावन्थिनौ कल्पयतम् देवेऽर्विषः कल्पयतम् मानुषेः इषमोर्जमस्मासु धत्तम् प्राणान् पशुषु प्रजाम्मयि च यजमाने च निरस्तः निरस्तोमर्कः अपनुत्रौ षण्डामर्कौ सहामुना शुक्रस्य समिदसि मन्थिनः समिदसि सप्रथमः सङ्कृतिर्विश्वकर्मा सप्रथमो मित्रो वरुणो यत्कृत्तिकाः स्वायामेवैनम् ब्रह्मवर्चसी भवति मुखम् वा एतन्नक्षत्राणाम् यत्कृत्तिकाः यः कृत्तिकाः स्वग्निमा धत्ते मोक्षरेव भवति अथो खलु अग्निनक्षत्रमित्यपचायन्ते गृहाणि हदाहुको भवति प्रजापतेरोहिण्यामग्निमसृजद तम् देवारोहिण्यामादधद ततो वै सर्वान सर्वान ते सर्वान् रोहानुरोहन् तद्रोहिण्यै रोहिणी त्वम् यो रोहिण्यामग्निमा धत्ते रथिमोद्येव सर्वान् रोहा अनुरोहति देवा वै भद्राः सन्तोऽग्निमाधित्सन्त तेषामनाहितोऽग्निरासीयेत् अथेभ्यो वामम् वस्वपा आक्रामत् ते पुनर्वस्वोरा दधत ततो वैताय वामम् वसूपावर्तत यः पुरा भद्रः सन्पापी पुनरे स्यात् स पुनर्वस्वोरग्निमादधीत भद्रो भवने यः कामये तदा न प्रजास्य हृति सपूर्वजोः अर्यम्णो वा एतन्नक्षत्रम् यत्पूर्वे फल्गुनि अर्यमेतराहुर्यो ददाति दानकामा अस्मै यः कामयेत भगी स्यामिति स उत्तरयोः फल्गुन्या अग्निवादधीत भगस्य वा एतन्नक्षत्रम् यदुत्तरे पालकञ्जा वे नामासुरा आसन् तेषु वर्गाय लोकायाग्निवचिन्वत पुरुष इष्टकामुपादधात् पुरुष इष्टकाम् स इन्द्रो अब्राह्मणोऽ ब्रुवाण इष्टकामुपाधत्ता येषा मे लोकमा प्रारोहन् ये वाकेर्यन्त त ओर्नावभयो भवन् द्वादपतताम् तौ दिव्यौ स्वानावभवताम् यो भ्राद्रव्यं स्यात् स चित्रायामग्निमादधीत अवगेर्यैव भ्रातृव्यान् वचोबलमिन्द्रियम् वीर्यमात्मन् धत्ते वसन्ता ब्राह्मणाग्निमादधीत वसन्तो वै ब्राह्मणस्यर्तुः स्व एवैन मृताबाधाय ब्रह्मवर्चसी भवति मुखम् वा एतदृतूनाम् यद्वसन्तः यो वसन्ताग्निमाधत्ते धत्ते एव भवति अथो यो निमन्तमेवैनम् प्रजातमाधत्ते ग्रीष्मे राजन्य आदधीत ग्रीष्मो वै राजन्यस्यर्तुः स्व एवेन मृताबाधाय इन्द्रिया वे भवते शरदिवैष्य आदधीत शरद्वैवेश्यस्यर्तोः स्व एव मृताबाधाय असुमान् भवते न पूर्वजोः फल्गुन्यारग्निमादधीत एषा वे च घन्या रात्रिः संवत्सरस्य यत्पूर्वे फल्गुने पृष्टित एव संवत्सरस्याग्निमाधाय धीता एषावे प्रथमा रात्रिः संवत्सरस्य यदुत्तरे फल्गुने मुखल एव संवत्सरस्याग्निमाधाय वसीजान्भवति अथो खलो यदैवैन यज्ञ उपनमेत् अथादधीता सैवास्यर्धिः उद्धन्वे यदेवास्य अमेध्यम् तदपहन्ति अपोगो मोक्षदिशान्त्ये सिकता निपपति एतद्वा अग्नेर्वैश्वानरस्य रूपम् रूपेणैव वै विश्वानरमवरुन्धे दोषान्निपपति पुष्टिर्वा एषा प्रजननम् यद् दोषा आह पुष्ट्यामेव प्रजननेऽग्निवा धत्ते अथो सञ्ज्ञान एव सञ्ज्ञानेतत्पशूनाम् यदोषाः या वा पृथिवी सहास्ताम् ते विगति अब्रूताम् अस्त्येव नौ एत तदस्या मदधार तदोषा अभवन् यदस्या यज्ञजमासे एत तलमुष्यामदधा तदलश्चन्द्रमसि कृष्णाम् ऊषान्निवपन्नतोऽध्यायेत् द्यावापृथिव्योरेव यज्ञमाधत्ते अग्निर्देवेभ्यो निराजत आहूरूपम् कृत्वा सपृथिवीम् प्राविशत् स पूतेः कुर्वाणः पृथिवीमनुसमचरत् तदाखुकरीषमभवत् यदाघुकरेषगम् सम्भारो भवति यदेवास्य तत्र न्यक्तम् तदेवावरुन्धे वोर्जम् वा एतकम् रसं पृथिव्या उपदेघा उद्दिहन्ति यद्वल्मेकम् यद्वल्मेकम् वा सम्भारो भवति ऊर्जमेव रसं पृथिव्या अवरुन्धे अथो श्रोत्रमेव श्रोत्रगृह्येतत्पृथिव्याः यद्वल्मेकः अवधिरो भवति य एवम् वेद प्रजापतिः प्रजा असृजत तासामन्नमुपाक्षीयत ताभ्यः सूदमुपप्राभिरत् ततो ता वै तासामन्न नाक्षीयत यस्य सूदः सम्भारो नास्य गृहेन्दम् क्षीयते आपो वा इदमग्रे सलिलमासीद तेन प्रजापतिरश्राम्य कथमिदग्र्यादिति सोऽपश्यत् पुष्करपर्णम् तिष्ठत् सोऽत आश्रीरैतत् यस्मिन्विदमधितिष्ठते समबाहो रूपम् कृत्वमज्जत् सपृथिवीमथार्जत् तस्या उपहत्योदमज्जत् तत्पुष्करपर्णे प्रथयत् यदप्रथयत् तत्पृथिव्यै पृथिवित्वम् अभूद्वा इदमिते तद्भूम्यै भो वित्वम् ताम् दिशो भवातः समवहत् तागुम् शर्कराभिरदृगम्हत् शं वेनोभूदिति तच्छर्कराडागुम् शर्करत्वम् यद्वराहविहतगुम् सम्भारो भवति अस्यामेवाच्छम्भट्कारमग्निवात्ते शर्कराभवम् अथो शन्दा सरेता अग्निराधेय इत्याह आप वरुणस्य पत्नय आसन् ता अग्निरभ्यध्यायत् ताः समभवत् तस्य ता एतः परापदत् तद्धिरण्यमभवत् यद्धिरण्यमुपास्यते सरेतसमेवाग्निमाधत्ते पुरुषिन् वै स्वाग्रेतसो बीभत्सखलित्याहोः उपास्यत्यजी भत्सायै अतिप्रयच्छति आर्तिमेवातिप्रयच्छति अग्निर्देवेभ्यो निलायत आशो रूपम् कृत्वा सोऽवत्सरमतिष्ठत् तदश्वत्थस्याश्वत्थत्वम् यदात्थः सम्भारो भवति यदेवास्य तत्र न्यक्तम् तदेवावरुन्धे ोर्जम् व्यभजन्त तत उदुम्बर उदतिष्ठत् ओर्ग्वा उदुम्बरः यदौदुम्बरः संभारो भवति ओर्जमेवा वरुन्धे तृतीयस्यामितो दिविसो म आसीत् गङ्गायत्र्याहरत् तस्य पर्णमच्छिद्यत तत्पर्णोऽभवत् तत्पर्णस्य पर्णत्वम् यस्य पर्णमयः संभारो भवति सोमपि समेवावरुन्धे देवाभि ब्रह्मन्न वदन्त तत्पर्ण उपाशृणोद् शुश्रवावे नाम यत्पर्णमयः सम्भारो भवति ब्रह्मवर्चसमेवावरुन्धे प्रजापतिरग्निमसृजत स्वबिभे प्रमाधक्ष्यते ते तगम् शम्या शान्त्या अप्रदाहाया अग्ने सृष्टस्य यतः विकङ्कतम् भा आर्च यद्वेकङ्कतः सम्भारो भवति भा एवावलुन्धे स हृदयोऽग्निराधेदयत्याहुः मरुतोद्भिरग्निमतमयन् तस्य ताम् तस्य हृदयमाच्छिन्दन् सा शयरभवत् यदशनिह तस्य वृक्षस्य सम्भारो भवति स हृदयमेवाग्निवाधत्ते द्वादशसु विक्रामेष्वग्निवादधीता द्वादशमासा आसंवत्सरः संवत्सरा देवैनमवरुद्ध्याधत्ते यद्वादशसु विक्रामेष्वादधीता परिमितमवरुन्धीत चक्षन्निमित आदधीत इह द्वादशविक्रामा इति परिमितम् चैवपरिमितम् चावरुन्धे अनृतम् वैवा चापदति अनृतम् मनसा ध्यायते चक्षुर्वै सत्याम् अद्रा नीत्याः अदर्शमिते तात्सात्याम् यश्चक्षुर्निमितेऽग्नि सत्य एव वैरमा धत्ते तस्मादाहिताग्निर्नानृतम् वदेत् नास्य ब्राह्मणो नाश्वान् गृहे पसेत् सत्ये यस्याग्निराहितः आग्नेयेवै रात्रिः आग्ने पशवः ऐन्द्रमहः रक्तङ्गार्हपत्यमादधाति पशोनेवावरुन्धे दिवाहवनीजम् इन्द्रियमेवावरुन्धे अर्धोदिते सूर्य आहवनीयमादधाति एतस्मिन् वै लोके प्रजापतिः प्रजा असृजत प्रजा एव तद्यजमानसृजते चैव भविष्यच्चावरुन्धे इडावै मानवेयज्ञानो काशिन्यासीत् साशोत् असुरा अग्निमादधत हवनीजमग्र आदधत अथ गार्हवत्यम् अथाम्वाहार्यवचनम् सा भ्रमेत् प्रयेच्येषा विश्रेरकात् भद्रा भूत्वा परा भविष्यन्तेति यस्यैवमग्निराधीयते प्रणेच्यस्य श्रेरेति देवा अग्निमादध इति त्वदगच्छत् तेन्वाहार्यवचनमग्र आदधत अथ गार्हपत्यम् अथाहवनीजम् सा ब्रवीद प्राच्येषा विश्रीरकात् भद्रा भूत्वा सुवर्गम् च्यस्य श्रेति भद्रो भूत्वा सुवर्गम् लोकमेति प्रजान्दुलविन्दते साब्रवेदिडामनम् तथा वा अहम् तवाग्निमधास्यामि यथा प्रजजा पशुतिर्मिथुर्जनिष्यसे लोके स्थास्यसि अभिसुवर्गम् लोकम् जेष्यतीति गार्हवत्यम् वा अनु प्रजाः पशवः प्रजायन्ते गार्हवक्येनैवास्मै प्रजाम् पशोन् प्राजनयत् अथान्वा हार्यपचनम् तिर्यङ्गिव वा अयम् लोकः अस्मिन्नेव तेन लोके प्रत्यतिष्ठत् अथाहमनीलम् तेनैव सुवर्गम् लोकमभ्यजयत् यस्यैवमभ्युराधीयते प्रजया पशुकर्मिसु मैर्जायते प्रत्यस्मिन् लोके तिष्ठति अभिस्वर्गम् लोकम् जयति जा यस्य वा अ यथा देवतमग्निराधीयते आ देवता आभ्यो दृश्यते पापीलान्भवति यस्य यथा देवताम् न देवता, देवता आभ्य आवृश्यतेभवति भृगो धान्त्वाङ्गिरसाम् व्रतपते व्रजेना दधामेति भृगवम् गिरसामादध्यात् आदित्यानान्त्वादेवानाम् व्रतपते व्रतेना दधामेत्यन्यासाम् ब्राह्मणीनाम् प्रदानाम् करुणस्य त्वाराज्ञा व्रतपते व्रजेन दधामेति राज्ञः इन्द्रस्यत्वेन्द्रियेण व्रतवते व्रजेनादधामीति राजन्यस्य मनोऽस्त्वा ग्रावण्या व्रतवते व्रजेनादधामीति वैश्यस्य भूणान्त्वा देवानाम् व्रतवते व्रतेनादधामीति रथकारस्य यथा देवतमग्निराधीयते न देवता आभ्या आवृष्यते वशीयान् भवति प्रजापतिर्वाचः सत्यमपश्यत् तेनाग्निमा धत्ता तेन वै स आर्ध्वात् भूर्भुवः सुवरित्याह एतद्वैवाचः सत्यम् एतेनाग्निमा धत्ते रध्नात् एव रसोऽसत्यप्राशुरेव भवति असो एवम् वेद्वा स्मृत एवैनम् भोरित्याः प्रजा एव तद्यजमानसृजते भुव इत्याह तस्मिन्नेव लोके प्रतितिष्ठति सुरीत्याह सुवर्ग एव लोके प्रतितिष्ठति त्रिभिरक्षरैर्गार्हपत्यमादधाति त्रय इमे लोकाः एष्वेवैनम् लोकेशप्रतिष्ठितमाधत्ते सर्वैः पञ्चभिराहवनीलम् सुवर्गाय वा एष लोकायधीयते यदाहवनीदः सुवर्ग एवास्मै लोके वाचः सत्यगम् सर्वमाप्नोति त्रिभिर्गार्हपत्यमादधाति पञ्चभिराहवनीजम् अष्टौ सम्पद्यन्ते अष्टाक्षरागायत्री गायत्रोऽग्निः यावानेवाग्निः तमाधत्ते प्रजापतिः प्रजा, प्रजा असृजता ता अस्मात्सृष्टाः पराचीरायन् ताभ्यो ज्योतिरुदगृह्णा तम् ज्योतिः पश्यन्ते प्रजा अभिसमावर्तन्त उपरि वाग्निमुद्गृह्णे या दुद्धरन् ज्योतिरेव पश्यन्ते प्रजा यजमानमभि समावर्तन्ते प्रजापते रक्ष्यश्व यत् तत्परापत् तदश्वोभवत् तदश्वस्याश्वत्वा प्रजापतिः यदग्निः प्राजापत्योऽश्वः यदस्वम् पुरस्तान् नयति स्वमेव चक्षः पश्यन् प्रजापतिरनोदेति वज्रीवा एषः यदश्वः यदस्वम् पुरस्तान् नयति ेव भ्राग्रव्यान् प्रणुदते पुनरावर्तयति जनिष्यमाणानेव प्रतिनुदते न्याहवनीयो गार्हपत्यमकामयत निगार्हपत्य आहवनीयम् तौ विभाजन् नाशक्नोत् सोश्वः पूर्ववाग्भूत्वा प्राञ्चम् तत्पूर्ववाहःपूर्ववाम् यदस्वम् पुरस्तान् नयति विभक्तिरेवेण योः नानावीर्या वेवेन ना कुरुते यदुपर्युपरिशिरो हरेत् प्राणायविच्छिन्द्यात् अथोधः शिरो हरति अथेयत्यथेयति त्रय इमे लोकाः एष्वेवैनम् लोकेश प्रतिष्ठितमाधत्ते प्रजापतिरग्निमसृजता सोऽभिधे प्रमाधक्ष्यतीति तस्य त्रेधा महिमानम् यौहत् शान्त्या महिमानमेवास्य तद्व्योहति शान्त्य अप्रदाहाय पुनरावर्तयति महिमानमेवास्य सङ्गधाति पशुर्वा एषः यदश्वः एष रुद्रः यदग्निः यदस्वस्य फले अग्निमा दध्यात् रुद्राय पशूनपि दध्यात् अपशुर्यजमानः स्यात् यन्नाक्रमयेत् अनवरुद्धा अस्य पशव स्युः पार्श्वत आक्रमयेत् यथा हि तस्याग्नेरङ्गारा अभ्यववर्तेरम् अवरुद्धा अस्य पशवो भवन्ति रुद्राया न रुद्रायापि दधाति तेणवेगम् विराज एव विक्रान्तम् गजमानो न विक्रमते पवमानाय अग्नजे अग्नजे शुचगे यदग्नजे पवमानाय नर्मपति पुराद्येवैनम् यदग्नजे पावकाय भूत एवास्मिन्नन्नाद्यम् दधाति यदग्नजे शुचगे ब्रह्मवर्चसमेवास्मिन्नुपरिष्टाद्दधाति देवासुराः सङ्गत्ता आसन् ते देवा विजयमुपयन्तः अर्नौ वावम् वसुसन्यदधत इदमु न भविष्यति यदि न जेष्यन्तीति तदग्रर्णात्सहमशक्नात् तत्त्रेधा विन्यदधात् पशुश्रुतीजम् अप्सु तृतीजम् आदित्ये तृतीजम् तद्देवाभिजित्य पुनरपानुरुत्सन्त तेग्नजे पवमानाय पुरोडाशमष्टाकपालन्निरवपन् पशवो वा अग्निः पवमानः यदेव असौ वा आदित्योऽग्निःश्रुचिः यदेवादित्य आसीत् तत्तेनावारुन्धत ब्रह्मवादिनो वदन्ति अनुभो वावेता अग्न्याधेयस्य आग्नेयो वा अष्टाकपालोऽग्न्याधेयमिति यत्तम् निर्वपेत् नैतानि तादृगेव तत् यदेतानि निर्वपेत् नताम् यथाङ्गानि स्युः नात्मा तादृगेव तत् उभयानि सह निरुप्याणि यज्ञस्य सात्मत्वाय उभयम् वा एतस्येन्द्रियम् वैर्यमाप्यते यो अग्निवा धत्ते आदित्यन्तरम् इन्द्राग्नि वै देवानामजातयामानौ ये एव देवते अजातयाम्नि ताभ्यामेव स्मा इन्द्रियम् वेद्यमवरुन्धे आदित्यो भवति इयम् वा अदितिः अस्यामेव प्रतिष्ठति धेन वै वा यदाज्यम् अरडुहस्तण्डुलाः मिथुनमेवावरुन्धे घृते भवति यज्ञस्यालोक्षान्तत्वाय चत्वार आर्षेयाः प्राश्नन्ति दिशामेव ज्योतिषिजुहोति वशवो वा एतानि हमीगुंषि एष रुद्रः यदग्निः यत्सद्य एतानि हमीगुंषि निर्वपेत् रुद्राय पशूनपि दध्यात् अपशर्यजमानः स्यात् यन्नानुर्वपेत् अनवरुद्धा अस्य पशवः स्योः द्वादश सुरात्रेश्वर निर्वपेत् संवत्सरप्रतिमावे द्वादशरात्रयः संवत्सरेद्रपुंशमयित्वा यदेकमेकमेतानि हवेगुंषि निर्वतेत् यथा त्रीण्यावपनानि पूरजेत् तारक्तत् न प्रजननमुच्छिगुंशेत् एकम् निरूप्या उत्तरे समस्येत् तृतीयमेवास्मै लोकमुच्छिगुंशति प्रजननाया तम् प्रजया पशुभि प्रजायते अथो यज्ञस्यैवैषाभिक्रान्तिः रथचक्रम् प्रवर्तयति मनुष्यरथेनैव देवरथम् प्रत्यवरोहति ब्रह्मपादिना वदन्ति होतव्यमग्निहोत्रा न होतव्या इति <laughs> <laughs> यद्यजुषाजुहुयात् अयथा पूर्वमाहुते जुहुजात् यन्नजुहुजात् अग्निः परा भवेत् तोष्णीमेव होतव्यम् यथा पूर्वमाहुते जुहोति नाग्निः परा भवति अग्निधे ददाति अग्निमुखा ब्रह्मणे इन्द्रियमेवावरुन्धे धेनुगुंहोत्रे आशिष एवावरुन्धे अनड्वाहमध्वर्यवे वह्निर्व अनड्वान वह्निरध्वर्योः वह्निरैव वह्नियज्ञस्यावरुन्धे मिथुलौ गावौ ददाति मिथिलस्यावरुध्यै वासो ददाति सर्वदेवत्यम् वै सर्वा एव देवताः प्रीणाति आद्वादशभ्यो ददाति द्वादशमासाः संवत्सरः संवत्सर एव प्रतिष्ठति काममूर्ध्वम् देयम् अपरिमितस्यावरुद्ध्यै धर्मः शिरस्तदयमग्निः संप्रयः पशुभिर्भवत् छद्यस्तोकायतनजायज्छ तः प्राणस्तदयमग्निः सम्प्रियः पशुभिर्भुवत् स्वदितम् लोकायतनजाय पितुम्ब च प्राचीमनः प्रतिशम्प्रेहि विद्वान् अग्नेरग्ने पुरो अग्निर्भदेह विश्वा चतुष्पदे अर्कश्चक्षुस्तदसोऽसौर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत् यत्ते शुक्रशुक्रम् वर्चः शुक्रातनुः शुक्रम् ज्योतिरजस्रम् ते तेन मे देदिहिते नत्वादधे दे। अग्निनाग्ने ब्रह्मणा आलशे व्यालशे सर्वमायुर्व्यालशे ये ते अग्ने शिवे तनुवो विराट् च स्वराट् च ते वा एते अग्ने शिवे तनुवो सम्राट्चाभिभोश्च ते माविशतान्ते वाजुन्वताम् एते अग्ने शिवे तनुवो विभोश्च परिभोश्च ते माविशतान्ते माजिन्वताम् एते अग्ने शिवे तनुवो प्रभ्री च प्रभूतिश्च ते माविशतान्ते माजुन्वताम् यास्ते अग्ने शिवास्तनुवः ताभिस्त्वादधे यास्ते अग्ने घोरास्तनुवः ताभिरमुम् गच्छ इमे एते लोका अग्नयः ते गदव्यावृत्ता आधीये रन् शोचये दुर्यजमानम् धर्मः शिरैरिगार्हपत्यमादधाति पातः प्राणैत्यन्वाहार्यवचनम् अर्कश्चक्षुरित्याह वनीजम् तेनैव्यावर्तयति तथा न शोचयन्ति यजमानम् रसन्दरमभिगायते गार्हत्य आधीयमाने रासन्तरो वा अयम् लोकः अस्मिन्नेवैरण्लोके प्रतिष्ठितमाधत्ते वामदेव्यमभिगायत उद्धियमाणे अन्तरिक्षम् वै अन्तरिक्ष एवैनम् प्रतिष्ठितमाधत्ते अथो शान्तिर्वैवामदेव्याम् शान्तमेवैनम् पशव्यमुद्भरते बृहदभिकायत आहमनीज आधीयमाने बार्हतो वा असौ लोकः अमुस्मिन्नेवैनम् लोके प्रतिष्ठितमाधत्ते प्रजापतिरग्निमसृजत सोऽसो वारो भूत्वा पराङ्गैर तम् वारवन्तीजेना वारयत तद्वारवन्तेजस्य वारवन्तेजत्वम् शैतेनश्येती अकुरुत धर्मशिरैतिकालभपत्यमादधाति सशीर्षाणमेवैनमा धत्ते उपैनमुत्तरो यज्ञानमति रुद्रो वा एषः यदग्निः स आधीयमान ईश्वरो यजमानस्य पशू न हि पुंसितोः सम्प्रियः पशुभिर्भुवदित्याः पशुभिरेवैनगम् सम्प्रियम् करोति शब्दस्तोकायतनयाय गच्छेत्याह आशिषमेवैतामाशा आस्ते आतः प्राण इत्यन्वाहार्यवचनम् स प्राणमेवैनमाधत्ते स्वदितम् तोकायतनयाय पितुम् पचेत्याह अन्नमेवास्मै स्वदयति प्राचीमनुप्रदिशम् प्रेहि विद्वानित्याह विभक्तिरेवैनयोः सा अथो नानावीर्या देवेनौ कुरुते ऊरुधिरन्नोधे द्युवदे च दुष्पद इत्याह आशिषमेवैतामासा आस्ते अर्कश्चक्षुरित्याह वनीयम् अर्को वै देवानामन्नम् अन्नमेवावरुन्धे तेन मे दे दिहेत्याह समिन्ध एवैनम् आनशेव्यानश इति त्रिरुदिङ्गयति प्रयति मे लोकाः येष्वेवैनम् लोकेश प्रतिष्ठितमाधत्ते तत्तथा न कार्यम् वीङ्गितमप्रतिष्ठितमादधीत उद्धृत्यैवाधायाभिमन्त्रियः अवीङ्गितमेवैनम् प्रतिष्ठितमाधत्ते अग्ने चिराट्स्वराट यास्ते अने शिवास्तुस्ताद अग्ने शिवास्तु तावर संवर्धय यास्ते अने घोरास्तुस्तावतीरवरा भाव गर्द्नि वंसती एषा वा अग्नेर्यज्ञयातनाः तामेवास्मै जनयति अदिनिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौ दनमपचत् तस्या उच्छेषणमदुः तत्प्राश्नात् सारेतो धत्ता तस्यै धाता च आर्जा च चा जायेताम् सा द्वितीयमपचत् तस्या तत्प्राश्नात् सारेतो धत्ता तस्यै मित्रश्च वरुणश्चाजायेताम् सा त्वदीयमपचत् तस्या उच्छेषणमदददुः तत्प्राश्नात् सारेतो धत्ता तस्या अवंशश्च भगश्चजायेताम् सा चतुर्थमपचत् तस्या उच्छेषणवदुः तत्प्राश्नात् सारेतो धत्ता तस्याविन्द्रश्च विवस्वागिष्टाचायेताम् ब्रह्मो दनम् पचति रेत एव तद्दधाति प्राष्टब्राह्मणा ओदनम् यदाज्यमुच्छिष्यते तेन समिधोऽभ्य दधाति उच्छेषणाद्वामि रेतो धत्त उच्छेषणादेव तद्रेतो धत्ते अस्थिवा एतत् यत्समिधः एतद्रेतः यदाज्यम् यदाज्येन समिभाभ्य च्यादधाति अस्येव तद्रेतसि दधाति तिस्र आदधाति मिथुलत्वाय यदेर्भरन्ति प्रजापतिना यज्ञमुखेन संमिताः यदेर्भवन्ति यज्ञपरुषा संहिताः यदेर्भवन्ति एतावद्वै पुरुषे वीर्यम् गीर्जसंहिताः आर्द्रा भवन्ति आर्द्रमिवहिरेतः शिच्यते चित्रियस्याश्वत्थस्या दधाति चित्रमेव भवति धृतवतीभिरादधाति एतद्वा अग्ने प्रियम् धामृताम् प्रियेणैवैनन्धाम् नासमर्थयति अथो तेजसा गायत्रेभिब्राह्मणस्यादध्यात् गायक्रछन्दा वै ब्राबाह्मणः स्वस्य छन्दसः प्रत्ययभस्त्वाय पृष्टग्भीराजन्यस्य पृष्टच्छन्दा वैराजन्यः स्वस्य छन्दसः प्रत्ययभस्त्वाय जगदेभिर्वैश्यस्य जगते छन्दा वै वैश्यः स्वस्य छन्दसः प्रत्ययभस्त्वाय त्वगुम् संवत्सरङ्गोपायेत् संवत्सरगुम् हिरेतोहितम् वद्भजे यद्येनकम् संवत्सरे नापनमेत समिधापुनरा दध्यात् प्रेत एव तद्धि सम्वर्धमानमेति न मागम् समश्नीयात् न स्त्रियमुपेजात् यन्मागुम् समश्नीयात् यत्स्त्रियमुपेयात् निर्वीरिर्यस्यात् नैन भग्निरुपनमेत् श्वास्यवादा ब्रह्मौ धनम् आदित्या वा इतमुत्तमासु वर्गम् लोकवायन् ते वा इतोऽयम् तम् एते खलु वा वादित्याः तैरे ब्रह्मणाः तैरेव सन्त्वम् गच्छति नैनम् प्रति नुदन्ते ब्रह्मवादिना कार्यः योऽस्मै प्रजाम् पशोन् प्रजायते शल्कैस्तागुम् रात्रिमग्निमिन्धीत तस्मिन्नुप्युषमरणे निष्टपेत् यथविषभाजवासितान्याविच्छायते तादृगेव तत् अपदोह्यतस्माग्निम् वन्थति सैव साग्ने सन्ततिः तम् मथित्वा प्रामुद्धरति यः सविधायाग्निमा धत्त इति आ संवत्सरे पुरस्तादादध्याज संवत्सरा देवैनमवध्या धत्ते यदि संवत्सरे न दध्यात् द्वादश्याम् द्वादशरात्रयः संवत्सरमेवास्याहिता भवन्ति यदि द्वादश्यान्नादध्यात् त्र्यः पुरस्तादादध्यात् आहिता एवास्य भवन्ति प्रजापतिः प्रजा असृजत सनिरिका नो मन्यत सरपोतप्यत स आत्मन्वीर्यमपश्यत तदवर्धत तदस्मात्सह सोऽर्ध्वमसृज्यत सा सोऽब्रवे प्रजापतिः मम वा एषा लोहा एव युष्माकमिति सा ततःप्राच्छुदक्रामत् तत्प्रजापतिष्पर्यगृह्णात् अथर्वपितुम् मे गोपायेति सा द्वितीयजमुदक्रामत् तत्प्रजापतिपर्यगृह्णात् नर्यप्रजाम् मे गोपायेति सा तृतीयमुदक्रामत् तत्प्रजापतिपर्यगृह्णा गोपायति सा चतुर्थमुदक्रामत तत्प्रजापतिपर्यगृह्णा सप्रशान्मे गोपायेति सा पञ्चामुदक्रामत तत्प्रजापतिपर्यगृह्णात् अरे बुद्धियमन्त्रम् मे गोपायेति अग्नेतान्द्यक्रमत जापतिःपर्यगृह्णात् अथो पङ्क्तिमेव पङ्क्तिर्वा एषा ब्राह्मणे प्रविष्टा तामात्मनोधिनिर्मिमीतेराधीयते तस्मादेतावन्तोऽधीयन्ते पान्तम् वा इदगुम् सर्वम् पान्ते सर्वं, पान्ते पान्त ग्रस्ृणोति अथर्वशिवम् मे गोपायेत्याह अन्नमेवैतेन स्पृणोति नर्यप्रजाम् मे गोपायेत्याह प्रजामेवैतेन स्पृणोति सर्गस्य पशून् मे गोपायेत्याह पशूनेवैतेन स्पृणोति सप्रतसभाम् मे गोपायेत्याह अहे बुद्धियमन्त्रम् मे गोपायेत्याह मन्त्रमेवैतेन श्रियज्ञः स्पृणोति यदन्वाहार्यपचनेन्वाहार्यम् पचन्ति तेन सोऽभीष्टः प्रीतः यद्गार्हपत्य आज्यमधिश्रजन्ति सम्पत्नीर्याजयन्ति तेन स अस्याभीष्टः प्रीतः यदाहवनीते जुह्वति तेन सो अस्याभीष्टः प्रीतः यत्सभायाम् विजयन्ते तेन सो अस्याभीष्टः प्रीतः यदावसथे न गम् हरन्ति तेन सो अस्याभीष्टः प्रीतः तथा अस्य सर्वे प्रीता अभीष्टा यथा ब्राह्मणाय गृहे वासिने परिदाय गृहा नेति साभागे तत् पुनरागत्योपतिष्ठते सा भागेयमेवै शान्तत् सा तत ऊर्ध्वारोहत् सारोहिण्यभवत् तत्रोहिण्यैरोहिणी त्वम् रोहिण्यामग्निमादधीता स एवैरयो प्रतिष्ठितमाधत्ते इति प्रथमाष्टके प्रथमः